मन्दस्मितशतकम् पद्नीमो वयमञ्जलिम् प्रतिदिनं बन्दच्छिदेधे देहिना कन्दर्पाघमतन्त्रमूलगुरवे कल्याणकेलीभुवे कामाक्षागनसारपुञ्जरजसे कामदृगचक्षुषाम् मन्दारस्तभग प्रभामतमुषे मन्दस्मिदर्ज्योतिषे सद्रीचेनपमल्लिकासुमनसा नासाग्रमुक् महे आचार्याय मृणालकाण्डमगसा नैसर्गिकाय द्विषे स्वर्धूया कामाक्ष्या स्मितमञ्जरी धवलिमा द्वैतयतस्मै नमः कर्पूरद्युदिचातुरीमधितरा अल्पीयसीम् कुर्वती दौर्भाग्योदयमेव सम्विदधते दोषाकरीणाम् द्विषाम् शुल्लानेपमनोज्ञमल्लिनिकरान् पुल्लानपि व्यञ्जति कामाक्ष्यामृतुलस्मितां शुलहरे कामप्रसूरस्तु मे या कर्पूरले पायते या नीले क्षणरात्रिकान्तिो ज्योत्स्ना प्ररोहायते या सौन्दर्यदुनीतरङ्घतिदिषो व्यालोलहंसायते कामाक्षाशिशिरीकरोतु हृदयम् सा गच्छति पूर्वपक्षसरणिम् कौमुद्वतक्ष्वेति मा येषाम् सन्ततमारुरुषति तुला कश्याम् शरत् चन्द्रमा येषामिच्छति कम्भुरप्य सुलभा अन्तेव प्रक्रियाम् कामाक्षा ममताम् हरन्तु मम ते हासद्विषामङ्कुर आशासीमसु सन्ततम् काशानाम् अभिमानभङ्गकलना कौशल्यमाभिप्रधी ईशानेन विलोकिता सकुतुकम् कामाक्षिते कल्मषा क्लेशापायकरी च हास्त्यलहरे साम्राज्य म्राज्य कंतर्पस्य विभो विभोजगत्र जय प्राकट्य मुद्रानि मुद्रा निधे यमरचातुरी कलयते रस्मिच्छठा सञ्चला सा मन्दस्मितमञ्जरी भवतु न कामाय कामाक्षिते शम्भूर्या परिरम्बसम्भ्रमविधौ नैर्मल्यसीमानिधीर्गैर्वाणीव तरङ्गिणी कृतमधो श्यन्ताम् कलिन्दाद्मजाम् कल्माक्षीकुरुते कलङ्गसुषमाम् कण्डस्थली शुम्भिनी कामाक्ष्यास्मितकन्तली भवतु स कल्याणसन्दोहिनी जेतुम् हारलतामिव स्तनतटीम् सञ्जग्मुषी सन्ततम् गन्तुम् निर्मलतामिव द्विगुणिताम् लब्धुम् विस्मयनीयतामिव हरम् रागाकुलम् कुर्वती मञ्जुस्ते स्मितमञ्जरी भवभयम् मद्नातु कामाक्षि मे श्वेतापि प्रकटम् निचाकररुचाम् मालिन्यम् आतन्वती शीता विस्मरभावकम् पशुपते सन्दुषयन्ती सदा स्वाभातधरार्चितापि न मथाम् उच्चैर्दिशन्ती गतिम् कामाक्षि स्फुटमन्तरा स्फुरतु त्रश्रीसरसी जले तरलित भ्रूवल्लिकल्लोलिते कालिम् नादधिकटाक्षजनुषा माधुव्रतीं व्यापृथीम् पांडिमा प्रथे काम स्मितातुरी मम मन का मुन्मूल निधित जीवमदर मैत्रीजुषम् पल्लवै शुद्धश्यद्विजमण्डलस्य च दैरस् कर्दरमभ्याश्रिता या वै मल्यवती सदैव नमता शेतपुनीतेतरा कामाक्षा हृतयम् प्रसाधयतु मे दृह्यन्ती तमसेमुखुकुमुदिनी साहाय्यमाभिप्रधी यान्ति शन्त्रकिशोरशेखरवपुस् सौदाङ्गणे प्रेङ्कणम् ज्ञानाम्भोनि दिवीशिकाम् सुमनसा कूलङ्कषाम् कुर्वती कामाक्ष्या स्मितकौमुदीहरतु मे संसारतापोदयम् काश्मीरद्रवधातु कर्दमरु प्रती हंसौघैरिव कुर्वती परिषितिम् हारीकृतैर्मौतिकै वक्षो जन्म तुषारशैलकटके सञ्चारमातन्वती कामाक्षा मृदु सस्मितद्युतिमये भागीरथी भासते कम्भो वंश कृपा सन्तानवल्लीभुवा सम्पुल्लस्तभगायिव प्रसुमरा मूर्ता प्रसादायिव वाक्पीयूषकणायिव वा त्रिपधग परयाय बेता इव राजन्ते तव मन्दहास किरण प्रिये वक्षो जे द्ररचना भङ्गीसपत्नायिता कण्ठे भन्तुरतन्त भद्रगुहना व्यापारमुद्रायिता कण्ठे भन्तुरदन्त भद्रगुहना व्यापारमुद्रायित ओष्टश्रीनि कुरुम्बपल्लवपुटे प्रेङ्क प्रसूनायिता कामाक्षी स्फुरता मदीयहृदये त्वत्मन्दहासप्रभा येषाम् बिन्दुरिवोपरि प्रचलितो नासाग्रमु मणीर् येषाम् दीन इभाति खण्डमयते हारकरालम्बनम् येषाम् भम् दुरिवोष्टयोररुणिमा रञ्जनम् कामाक्षा प्रभवन्तु ते मम शिवो लासायः साङ्कुरा शिनोति भजताम् वैरायते कैरवै नित्यम् या नियमेन कर्तुम् त्रिनेत्रोत्सवम् बिम्बम् सान्द्रमसं सवञ्चयदिया गर्वेण सा कामाक्षी स्मितमञ्जरी तव कतम् ज्योत्स्नेस्य सौकीर्त्यते आश्लेषणोपक्रमे या ते मातरुपैति दिव्यतटिनी शङ्काकरी तत्क्षणम् ओष्टौ वेपयति बृभौ कुटिलयत् यानाप्रयत्नानम् ताम् वन्दे मृदुहासपूरसुषमाम् कामाक्षि कामप्रते वक्त्रेन्तो तव चन्त्रिका स्मितरुचि वल्गु स्फुरन्ती सकोरमनसा कामाक्षि कौतूहलम् एतच्चित्रमकर्निशम् यदधिका मेषा रुचिम् गाहते बिम्भोष्टत्युमणि प्रभा स्वपि शयत् विभोगमालम्बते सादृश्यम् कवशाम्भुते वहदिते कामाक्षिमन्दस्मितम् शोभामोऽष्टरुषाम् भवित्रमभवाम् ये दत्विताम्ब्रूमहे एकस्मादुतितम् पुरा किल पभो सद्यः पुराण पुमान् अध्याप्यन्यसमुद्भवम् विस्तारिकस्तूरिका पत्रश्रीजुषि सञ्चलास्मितरुच कामाक्षिते कोमला सन्ध्यादीदितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा व्यालोलामलशारदाभ्रशकल व्यापारमातन्वते क्षीरम् दूरत एव वैमल्यमात्राधिधम् मातस्ते सकपाटभीधिमयताम् मन्दस्मितैर्मञ्जुळै किञ्चेयम् तु पिधास्ति दोहनवशात् तु सञ्जायते कामाक्षि स्वयमर्दितम् प्रणमताम् अन्यत्तु दो दुह्यते कर्पूरैरमृताम् शुभी जननिदे कान्तैश्च चन्द्राधपै मुक्ताहारगुणैर्मृणालवलये मन्दस्मितश्रीरियम् श्रीकाञ्चीश्वरि सज्जनै समतया कामाक्षि संस्तूयते तत्तादृक्ममतापशान्तिविदये किम् देवि मन्तायते मध्ये गर्भितमञ्जुवाक्यलहरी माद्विजरी शीतला मन्दारस्तभकायते जननी मन्दस्मिताम् सुचुटाम् यस्या वर्धयितुम् मुहोर्विकसनम् कामाक्षि कामद्रुहा वल्कोर्वीक्षणविभ्रभव्यति वी कर वासन्तमासायते पिम्पोष्टद्युतिपुञ्जरञ्झितरुचिस् त्वन्मन्दहास चटा कल्याणम् गिरिसार्वभौमतनये कल्लोलयत्वा शुमे पुल्लन् मल्लिपिनत्तहल्लकमयि कामाक्षि मालेवया श्रीकाञ्चीश्वरि मारमर्दितुरुरो मध्ये मुहुर्लम्बते ्राणाचाध्रविभ्रमदशाम् विद्योतमानाप्यसौ कामाक्षि स्मितमञ्जरी किरति ते कारुण्यदारसम् आश्चर्यम् शिशिरीकरोति जगति आलोक्यशैनामहो कामं केलति नीलकण्ठहृदयम् कौतूहलान्दोलितम् प्रेङ्कप्रौढकटाक्षकुञ्चकुहरे क्ष्वत्यश्च कुच्चायितं वक्रेन्तुच्छविसिन्धुवीशिनिशये फेन प्रदानायितम् नैरन्तर्यविजृम्बितस्तनतटे नैशोलपट् ितम् कल्माषम् कपलीकरोतु मम ते कामाक्षि मन्दस्मितम् पीयूषम् तव मन्दरस्मितमिति व्यर्थैव सा पिप्रत कामाक्षी ध्रुवमीदृशम् यदि भवे ते कदम् वा शिवे मन्तारस्य कदा लवम् न सहदे मह्नातिमन्दाकिनी इन्दुम् निन्ददि कीर्तितेशकलशे पादोतिमीष्यायते विश्वेषा नयनोत्सवम् विदनुताम् विद्योतताम् चन्द्रमा विज्ञातो विख्यातो न मुकुटे मद्ये च सम्मान्यताम् आखिम् जातमनेनहास सुषमाम् आलोक्यकामाक्षिते कालङ्कीमवलम्पते कलुदशाम् कल्माशहीनोऽप्यसौ चेतशीतलयन्तु न पशुपते आनन्दजीवातवः नम्राणाम् नयनात्पसीमसुशरचन्द्रोतपोपक्रमाहम् संसाराख्यसरोरुहा कारे तुषारोत्करा कामाक्षि स्मरकीर्तिनी बीजनिकरा त्वन्मन्दहासाङ्कुरा कर्मो काग्यतमकचाकशिकरान् कामाक्षि संचिन्तये त्वन्मन्दस्मितरोचि शान् म् शिशिरश्रियो विकसितम् चन्द्रातबाम्भोरुहा द्वेषाद् घोषणचातुरीमिव तिरस्कर्तुम् परिष्कुर्वते कुर्युन्न कुलशैलराजतनये कूलङ्कषम् मङ्गलम् कुन्दस्पर्दन सुञ्चुव तव शिवे मन्दस्मितप्रक्रमाः पुंसामसाधारणा कम्रेण स्नपयस्वकर्मकुहना शूरेण मारागमा व्याख्याशिक्षणदीक्षितेन विदुषा मक्षीण लक्ष्मीपुषा कामाक्षि स्मितकन्तलेन कारुण्या विहरण प्राचुर्य दुर्येण माम् द्वन्वन्दस्मितगन्तलस्य नियतम् कामाक्षि शङ्कामहे बिम्बकच्चन नूतन प्रचलितो नैषाशरश्रीकरा किञ्च क्षीरभयोनिधिप्रतिनिधि स्वर्वाहिनी वीषिका पिप्ो गोपि विटम्ब एव गुहना मल्लीमतल्लीरुषः दुष्कर्मार्क निसर्गकर्कचमः सम्पर्कतप्तम् मिलत् पङ्कम् शङ्करवल्लपे मम मन कामाक्षि काञ्चीशरी अम्बद्वन्मृतुलस्मितामृतरसे मङ्क्त्वा विधूय व्यधा आनन्दोदयशौतशृङ्खपदवी मारोटुमाकाङ्क्षी नम्राणाम् नगराजशेखरसुते नाकालयानाम् पुर कामाक्षि शमनेधारा कि आगु्रह आनन्दबीजानिते नासीरे नास मृतुहासनुते नाते सुधाशीत नासे सुधासी कामिप्रदान विभ्रमनिधि कम् दर्पधर्प प्रसू मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् शम्भुस्त्रपामीलितम् स्मेरं कारयति स्म ताण्डवविनो दानन्दिना दण्डुना क्षुण्णम् केन धीरमनसा कुत्रापि नानाजनये कर्मग्रन्थिनियन्त्रितैरसुगमम् कामाक्षि सामान्यता ते द्रष्टुमशक्यमेव मनसा मूढस्य मे चक्षुषो मार्गम् दर्शयतु प्रदीपयिव ते मन्दस्मितश्रीरियम् ज्योत्स्ना कान्तिभिरेव निर्मलतरम् नैशाखरम् हंसैरेव शरत्विकाससमये व्याकोशमम्भोरुहम् स्वच्छैरेव विगस्वरैवुडुघणै कामाक्षिबिम्बम् दिव पुण्यैरेव मृदुस्मितैस्तवमुखम् पुष्णातिशोपाभरम् मानग्रन्थिविदुन्तु तेन रभसात् आश्वात्यमाने न भ प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षिते तत्क्षणम् आलोक्यस्मितचन्द्रिकामुहुरिमा मुन्मीलनं जग्मुषीं चेतशीलयते शकोरशरितम् चन्द्रार्धचूटामणि कामाक्षि यस्यास्विशामङ्कुर आटीनस्तनपानलालसतया निःशङ्कमङ्केशय ऊर्ध्वम् वीक्ष्य विकर्षति प्रसृमरान् उद्दामया शुण्ठया तन्तावलग्रामणी काटाश्लेषविमर्दसम्भ्रमवशात् उद्धाममुक्ता गुण प्रालम्बे कुशकुम्भयोर्विकलिते दक्षत्विषो वक्षसि न्य प्रसुरया भाषा दती दशा श्रा काम से चेत वच्च्च्च्चास्मता चुच्चा मंदारे तव मंदरस्मितलोक्य कामि लक्ष्यते, शासगोदक्ष्य शात्रीषु दुतिमंजरी च महा दृश्य शुद्धानाम् कतमीतृषी गिरिसुते शुद्धा दशा कथ्यताम् पीयूषम् कलु पी सुरजनै दुःखाम्भुधिर्मद्यते माकेशैच्य जटा कलापनिघटे मन्दकिनी शीतांशु परिभूय देश तमसा तस्मादने दादृशी कामाक्षि मन्या एकां यस्या प्रभा चंद्रिका वक्षो जां यमे वक्षोजा पुरखे नेरहत काशा कौट्मल आशाम्भोरुहमम्ब किञ्च चनके आलम्बते पुल्लताम् आस्तीर्णाधरकान्तिपल्लवशये पादम् मुकुर्जग्मुषी कामद्रोयिणि ज्वालावलिम् व्यञ्जति निन्दन्तीगनसारहारवलय ज्योत्सना कारी विरिणे रेति जगाेतरा सूरियालोक विहासमिककम यान्ती हरन्ती तमः सन्दोहम् नमताम् निजस्मरणत दोषाकरद्वेषिणी निर्यान्ती वदनारविन्दकुहरात् निर्दूतजाट्या नृणा श्रीकामाक्षि तव स्मितद्युतिमयी चिद्रीयते चन्द्रिका कुण्ठीकुर्युरमिकुभूतघटना अस्मन्मनोमातिनी श्रीकामाक्षिः शिभङ्करा तव ये तन्वन्ति निरन्तरम् तरुणिम स्तम्भेरमक्रामणि कुम्भत्वन्तविडम्पिनीस्तनतटे मुग्धाकुदाडम्भरम् प्रेङ्कन्तः शरतम्भुता इवशनै प्रेमानिलै प्रेरिता मञ्जन्तो मदनारिकण्ठसुषमा सिन्धौ मुहु मन्दरम् श्रीकामाक्षिस्तवस्मिताम् शुनिकराम् श्यामायमानश्रिय नीलाम्भोधर नैपुणीम् ततयितो निर्निद्रयन्ध्यञ्जसा व्यापारं चतुरानैकविक्रुधो व्यागुर्वती गुर्वती रुद्राक्षग्रहणम् करेण सततं वा पुल्लम् धवलारविन्तमधरी कृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्तः सप्रभा कर्पूरद्युदितस्करेण कल्माक्षयन्द्याननम् श्रीकामाक्षि शिव पतिरिव श्रीमन्दहासोपिते आलिङ्गद्यतिभीवरांस्तनतटीम् बिम्बाधरम् शुम्भती प्रौढम् राघपरम् व्यनक्तिमनसो धैर्यम् दुनीतेतराम् वैचद्येन स विश्वतापहरण क्रीटापटीय पांडि पशेलि जगता नेत्रोत्सवत्द ने कामिस्मितलैस्तवुलाोढ़ु मुद्योगिनी ज्योत्स्नासौ जलराशि पोषण तूष्यां प्रपन्ना दशा लाव्यांबुजिनी मृणाल शृंगार गर्ज द्विप ग्रामण्यश्रुतिशामरैस्तरुणिम स्वाराज्यबीजाङ्कुरै आनन्दामृतसिन्धुभिः सुवृषधै आस्याब्जहंसैस्तव श्रीकामाक्षी मदानमन्दहसिते मत्कम् माणिक्यहारच्छठ सङ्क्षोणिपुञ्जमध्यशरणे मातः परिष्कुर्वती या वैधज्ञमुपैति शङ्करझटा सन्नामैकजुषा जनेन सुलभम् संसूचयन्ती शनैः उत्तुङ्गस्य चिरादनुग्रहतरो रुद्यस्य मानम् फलम् प्राधान्येन विकस्वराकुसुमवत् प्राकल्प्यमप्येयुषो कामाक्षिस्मितचादुरीतपमम क्षेमङ्करी कल्पत दानुष्काग्रसरस्य लोलकुटिल भ्रूलेकया बिव्रतो लीलालोकचिलीमुखम् नववय साम्राज्यलक्ष्मीपुषा जेतुं मन्मथमर्दिनं जननि ते कामाक्षिः साङ्कुर वल्कुर्विभ्रमभूभृथो वितनुते सेनापतिप्र यन्नाकम्पतकालकूटकपली कारेषु शुम्भेन यत् ग्लान्या सक्षुषिरुषिदानलशिके रुद्रस्य दत्तदृशम् चेतो यत्प्रसभम् स्मरज्वरसकीम् ज्वालेन ले लिह्यते कामाक्षि तवस्मितां शुकणिका खेलाभवम् प्राभवम् सम्भिन्ने पशुपर्वलोकतटिने विशिषयर्यामुनै सम्मिश्रेव सशाङ्गदीप्तिलहरे नीलैर्महानीरधैः कामाक्षि स्फुरिता तव कालिम्ना कालिम्ना कस रोषिषां यदि करे काञ्चित् दशामश्नुते जानीमो जगदीश्वरप्रणयिने त्वन्मन्दः सप् प्रभाम् श्रीकामाक्षि सरोजिनीमभिनव मेषायतः सर्वधा आस्येन्धोरवलोकने पशुपते रव्येति सम्पुल्लताम् तन्त्रालु ततभाव एव तनुते तत्त्वयि परिद्यक्रमम् यान्ती लोकिति मानमब्रतडिनी धातुश्चटा न्दी बालगभस्तिमालिकिरणै मेघा बलीशारधी बिम्भोष्ट्युद्यदि पुञ्जशुम्भनकला शोणायमानेन ते कामाक्षि स्मितरोचिषा समधशा मारोडुमाकाङ्क्षते श्रीकामाक्षि मुघेन्दुभूषणमिधम् मन्दस्मितम् तावकम् नेत्रानन्द करम् तदाहिमकरो गच्छेत्यता तिग्मता शीतम् देवि तदा यदा हिमजलम् सन्तापमुद्रास्पदम् किञ्ज तदा यता दत्ते च मुक्तामणि त्वन्मन्दस्मितमञ्जरीम् प्रसृमराम् कामाक्षि सन्द्रादपम् सन्दः सन्दतमामनत्यमलता कल्लक्षणम् लक्ष्यते यन्नासौ विदुनोदितापमधिकम् नाभ्यन्तरम् मानस द्वान्तम् तत्कलु दुःखिनो केनेति जानीमहे नम्रस्य प्रणयप्ररोहकलः छेदाय मन्दम् चन्द्रकिशोरशेखरमणे कामाक्षिरागेण ते बन्धूकप्रसवश्रियम् जितवतो बंहीयसीं तादृशी बिम्पोष्टस्य रुचिम् निरस्य हसित ज्योत्स्नावयस्यायते मुप्तानाम् परिमोचनम् विदधत तत्प्रीतिनिष्पाधिनी भूयो धूरत एव धूतमश्रुत तत्पालनं तन्वती उद्बोधस्य जलान्तराधविरतम् तत् धूरताम् जग्मुषे कामाक्षि स्मितमञ्झरी तव कथम् कम्भोतुलामच्नुते श्रीकामाक्षि तव स्मितद्युतिजरी वैध्यलीलायितम् पश्यन्नोऽपि निरन्तरम् सुविमलम् मान्या जगन्मण्डले लोकम् हासयितुम् किमर्दमनिशम् प्राकाश्यमादन्विते मन्दाक्षम् विरहैयवस्थो विभवो मन्दारचन्द्रादयाः क्षीराब्देरपि शैलराजतनये द्वन्मन्दहासस्य च श्रीकामाक्षिवलक्ष्मोदयनिधे किञ्चित् ब्रूमहे एकस्मै पुरुषाय देवि सदधौ लक्ष्मीम् कदाचित् पुरा सर्वेभ्यो विदधात्यसौ तु सततम् लक्ष्मीम् च वागीश्वरीम् श्रीकाञ्चीपुरत्नदीपकलिके तान्येव विश्वान्तरे शाकोराणि शराचरेश्वरि परम् धन्यानि मन्यामहे कम्बातीरकुटुम्पशङ्क्रमकला सूञ्चूनि कामाक्षिते नित्यम् यानि मृधुस्मितेन्दो महसा माश्वादमातन्वते चैत्यप्रक्रममाश्रितोऽपि न मताम् दूनयत् गव्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन् लीलाभपुरःसरोऽपि सततम् वासंयमान् कामाक्षी स्मितरोषिताम् तव समुल्लासकथम् वर्ण्यते श्रोणीसञ्चलमे लीलागतम् मन्धरम् ब्रोवल्लीचलनम् कटाक्षवलनम् मन्दाक्षवीक्षाचनम् यद्वैद्यमुखेन मन्मधरिपुम् सम्मोहयन्त्यजसा श्रीकामाक्षितवस्मिताय सततम् तस्मै नमस्कुर्महे श्रीकामाक्षि ज्योतिष्प्ररोहे तव स्वेतश्वेतिमसार्वभौमशरणि प्राकल्प्यमप्येयुषी युवराजतां कलयते चेटीधुरम् चन्द्रिका गङ्गा सा च सहचरे साधर्म्यमालम्पते ज्योत्स्ना किम् तनुते तनुमता मौष्ण्यप्रशान्तिम् विना त्वन्मन्दस्मितरोचिषा तनुमता कामाक्षिरोचिष्णुना सन्तापोऽपि निवार्यते न प्रासुर्यमङ्कूर्यते सौन्दर्यम् परिपूर्यते जगति सा संचार्यते च सञ्चार्यते हिमरुषं कुमुद श्रियां हिमरुष कान्त्वैव सन्तुष्यते ज्योत्स्नारोशिरभिप्रदोषसमयम् प्राप्यैव सम्पद्यते स्वच्छ नवमौक्तिकस्य परमम् संस्कारतो दृश्यते कामाक्षास्मितदीधिते विशधिमा नैसर्गिको बासते प्राकाश्यम् परमेश्वरप्रणयिनि त्वन्मन्तः स श्रिय श्रीकामाक्षिमभक्षिणो त्वमममत वैचक्षणीमक्षयाम् यद्बीद्येव निलीयते हि मकरो मेघादरेषु गर्भे मौतिकमण्डलीश्च सरसो मध्ये मृणाली च सा हेरम्बेशगुहेश हर्षभरितम् वात्सल्यमङ्कूरयत् मारद्रोहिणि पूरुषे सह भुवम् प्रेमाङ्कुरम् व्यञ्जयत् आनम्रेषु जनेषु पूर्णकरुणा वैदव्यमुत्तालयत् कामाक्षि स्मितमञ्जुसा तव कथम् कुर्वन्द्विजयि सङ्गमम् वाणी बद्धति दूरकोऽपि सततम् तम् सागचर्यम् वहन् अश्रान्तम् पशुतोर्लभोऽपि कलयन् पद्यौ पशूनाम् रथिम् श्रीकामाक्षी तव स्मिताम् रुदरस शन्तो प्रेमांकुरप्रक्रमं नित्यम् प्रकटीकरोति सगजा मुन्निद्रयन् माधुरी तत्तादृक्तवमन्दहास मातः कथं मानिता तन्मूर्धा सुरनिम्नकां शकलिका निन्दोच्यतां निन्दति ये माधुर्यविहारमण्टपभुवो ये चैत्यमुद्राकरा ये वैशद्यदशा विशेषसुभगा ते मन्दहासाङ्गुरा कामाक्ष्यासगजं गुणत्रयमितं कुर्वता वाणी कुम्पनढम् परे सहृदये कीर्तिप्ररोहे शमे कामाक्ष्या मृदुलस्मिताम् शुनिकर वीक्षणे मन्दाक्षग्रहिलाहि मद्युतिमयो काक्षे पदीक्षाम् कुरा दाक्षम् माक्षिककुड द्राक्षाभवम् स्वाक्षुमे मे सूक्ष्मम् मोक्षपथम् निरीक्षितुमपि प्रक्षालयेयुर्मनः जात्या शीतलशीतलानि मधुराण्येदानि गङ्गानीव पयांसि देवि बडलान् यल्पस्मितज्योतिषाम् येन पङ्गपरम्परा मलिनिताम् एकाम्रनाथप्रिये श्रीकामाक्षि परं मदीयदिषणाम् प्रक्षालयन्तु क्षणा अश्रान्तम् परदन्त्रित त्वन्मन्दहासाङ्कुरै श्रीकामाक्षिदीयवर्णसमता सङ्गेन शङ्कामहे हिन्दुम् मालाञ्च धत्तेन भै वैकुण्ठैरवकुण्टनं च कुरुते धूलीशयै बास्मनै श्रीकामाक्षिपवप्रिये मृदुवच सौरभ्यमुद्रास्पतम् प्रौढप्रेमलता नवीनकुसुमं मन्दस्मितम् तावकम् मन्दं कन्दलति प्रियस्य वदना लोके भाषणे लक्ष्णे कुट्मलदि प्ररूढपुलके साश्लेक्षणे पुल्लती किम् त्रैस्रोतसमम्बिके परिणतम् श्रोदचतुर्थम् नभम् पीयूषस्य समस्ततापहरणम् किम् वा वपू। वपु कटिकं गिरो मधुरिमा व्यासाय गव्यम्भय पय कामाक्षि स्मरशासनप्रियतमे मन्दस्मितम् तावकम् भूषावक्त्रसरोरुहस्य सहजाम् वाशां शकी शाश्वती नेवि विभ्रमसन्तते पशुपते सौदीदृशाम् पारणाम् जीवादो मत्नश्रियशिरुषे रुच्चाटनी देवता श्रीकामाक्षि गिराम भूमिमयते हासप्रभामञ्जरी श्रूतिष्वेतिमगन्तलस्य वसति शृङ्गारशारश्रिय पूर्ति सूक्तिजरीरसस्य लहरे कारुण्यपातो निते मधुरिम स्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु हासप्रभाचादुरी जन्तूनाम् जनि दुःखमृत्युलहरी सन्तापनम् कृन्तत प्रौढानुग्रहपूर्णशीतलऋषि नित्योदयम् बिभ्रत श्रीकामाक्षि विसृद्वरायिवकरा आसाङ्कुरास्ते हटात् आलोकेन निहत्युरन्तमसय स्तोमस्य मे सन्तती उत्तुङ्गस्तनमण्डलस्य विलस लावण्यलीलानटी रङ्गस्य स्फुटमूर्त्वसी मणिमुहो प्राकाश्यमभ्येयुषी श्रीकामाक्षिस्तवस्मिदुतिदधि चित्रा विद्रुममुद्रिताम् विदनुते मौक्तिम् वितानश्रियम् स्वाभाव्यात्तवक्त्रमेव ललितम् सन्तोषसम्भातनम् शम्भो किम् पुन अञ्चितस्मितरुष पाण्डित्यपात्रीकृतम् अम्बोजंस्तव एव सर्वजगता सक्षुप्रियम् भावुकम् कामाक्षि स्फुरिते शरत् विकसिते भ्राजते पुम्भि निर्मलमानस विदधते मैत्रीम् रसं निर्मलम् कर्तुम् कर्मलयम् च निर्मलमताम् कीर्तिम् लबन्धेतराम् सूक्तिम् पश्मलयन्ति निर्मलगुणान् यत्तावख सेवक कलया नैर्मल्यसीमानिधे आकर्षन् नयनानि नागि सदसा इन्दुम् किञ्च विमोहयन् पशुपतिम् विश्वार्थिमुच्चाटयन् हिंसन् संसृतिढम् परम् तव शिवे हासाह्वयो मान्त्रिक श्रीकामाक्षिमधार्तितापतमसो विद्वेक्षणे चेष्टधाम् अस्माकमल्पस्मित ज्योतिर्मण्डलशङ्क्रमास्तव शिवे कामाक्षिरोक्षिष्णव पीडाकर्मटकर्मघर्मसमय व्यापारतापानल श्रीपाता नववर्षकर्षणसुधा शोधस्विनीशीकरा पूरे परिस्फूर्जति प्रौटाम् भारिधि कलयते भक्तात्मनाम् प्रादिभम् दौर्गत्यप्रसरातमः पटलिका साधर्म्यमाभिप्रते किम् किम् कैरवसाहचर्यपथवी रीत्याम् पदम् मन्दाराधिक्षु मन्मधारिमखिषी प्राकाश्यरीतिम् निजाम् काधाचित्कतया विशङ्क्य भगुषो वैशद्यमुद्रागुणा श्रीकामाक्षितधीयशङ्घमकला मन्दी भवत् साधन्येन तव स्मिते वितनुते इन्दाने भववीति कर्मौकचण्डानिल प्रौढिम् न कुलं सन्तापचिन्ताकुलम् माधर्माम् परिषिञ्च किञ्चतमलै पीयूषवर्षैरिव श्रीकामाक्षि तवस्मितद्युतिगणै शैशिर्यलीलाकरै भाषायारसनाग्रकेलनजुष श्रृङ्कारमुद्रासकी लीलाजातरते सुखेन नियम स्नानायमेनाद्मजे श्रीकामाक्षि सुदामयी वसशिराश रोतस्विनीतावकी गाटानन्दतरङ्गिता विजयते हासप्रपाचातुरी संतापं विरली विरलीकरोतु सकलम् कामाक्षिमच्चेतना मज्जन्ती मधुरस्मिता मरधुनी कल्लोलजाले शुधे नैरन्तर्यमुद्यमन्मतमरुल् लोलेक्षु प्रेमेन्दुप्रतिबिम्बितो वितनुते कौतूहलम् दूर्जटे चेत क्षीरपयोदि मन्दनचलद् रागाख्यमन्दाचलन् शोभव्यापृतिसम्भवाम् जननि ते मन्दस्मितश्रीसुधाम् स्वाधम् स्वाधमुदीतकौतुकरसं नेत्रत्रयी शङ्करी श्रीकामाक्षि निरन्तरम् परिणमत्यानन्दवीषीमयी आलोके तव पञ्चसाय करिपो उद्दामकौतूहल प्रचलिदा दुनानन्ददुःख ुधे काचित् वीचिरुतञ्चति प्रदिनवा संवित्प्रोहात्मिका तां व्याकुर्वते सर्वधो शुक्तिशीलयते किमद्रितनहे मन्दस्मिधा ते मुहु मातुर्याघमसम्प्रदायमघवा सूक्तेस्तु मन्दस्मितम् इत्थं कामभिगाहते मम सन्देहमार्गभ्रमीम् श्रीकामाक्षिणपारमाद्यशरणे स्फूर्तौ निदत्ते पदम् क्रीटालोलकृपासरोरुकमुखी सौधाङ्गणेभ्यः कवी श्रेणी वाक्परिपाटिकामृतजरे श्रुतिगृहेभ्यः शिवे निर्वाणाङ्कुरसार्वभौमपदवी सिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्दहसित ज्योतिष्गणेभ्यो नमः आर्यामेव विपावयन्मनसि य पादारविन्दम् पर पश्यन्नारभते स्तुतिम् सनियतम् लब्वा कटाक्षश्च विम् कामाक्षामृतुलस्मितांशुलहरी ज्योत्स्नावयस्यान्विताम् आरोह्यत्यभवर्गसौथवलभीम् आनन्दवीषी मही इमाम् पञ्चशतीं यष्टु नित्यम् भक्तिरुत्पठेत् श्रीकामाक्षि तस्य प्रसन्तासवरप्रथा श्रीकाञ्चीनगरी कामकोटिपीठादिभप्रभो जीया जगद्गुरो शैष सरस्वती। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसादिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु व्यापारं चतुराननैकविक्रुधो व्यागुर्वती गुर्वती, गुर्वती। रुद्राक्षग्रहणं करेण सततं वा पुल्लम् धवलारविन्तमधरी कृत्य स्फुरन्ती सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्तः सप्रभा कर्पूरद्युदितस्करेण महसा कल्माक्षयन्द्याननम् श्रीकामाक्षि शिवप्रिये पतिरिव श्रीमन्दहासोपिते आलिङ्गद्यतिभीवरांस्तनतटीम् बिम्भाधरम् शुम्भती प्रौढम् राघपरम् व्यनक्तिमनसो धैर्यम् दुनीतेतराम् वैचद्येन स विश्वतापहरण क्रीटा क्रीटापटीयस्तया पाण्डित्येन पशेलिमेन जगता नेत्रोत्सवोत्पादने कामाक्षिस्मितकन्धलैस्तव तुला मारोढुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशां लावण्याम्बुजिनी मृणालवलय शृङ्गारगर्ज द्विप ग्रामण्यश्रुतिशामरैस्तरुणिमा स्वाराज्य बीजाङ्कुरै आनन्दामृतसिन्धुभी सुवृषधै आस्याब्जहंसैस्तव श्रीकामाक्षी मदानमन्दहसिते मत्कम् णिक्यार शञ्चक्षोणिपुञ्जमध्यशरणे मातः परिष्कुर्वती या वैधज्ञमुपैति शङ्करजटा कान्तारवामीपध सर्वापीपयसस्मिधौत्युधिरसौ कामाक्षिते मञ्जुला सन्नामैकजुषा जनेन तुङ्गस्य चिरादनुग्रहतरो रुद्यस्य मानम् फलम् प्राधान्येन विकस्वरा प्राकल्प्यमप्येयुषु कामाक्षिस्मितचादुरीतपमम क्षेमङ्करी कल्पताम् धानुष्गाग्रसरस्य लोलकुटिल भ्रूलेकया बिव्रतो लीलालोकचिलीमुखम् नववयसाम्राज्यलक्ष्मीपुषा जेतुम् कामाक्षिः साङ्कुर वल्कुर्विभ्रमभूभृथो वितनुते सेनापतिप्रक्रिया यन्नाकम्पतकालकूटकपली कारेषु शुम्भेन यत् ग्लान्या सक्षुषिरुषिदानलशिके रुद्रस्य दत्तदृशम् चेतो प्रसभं स्मर जरस के ज्वालन लिख्यते कामाक्षि तवस्मितां शुकणिका प्राभवं, प्राभवम् सम्भिन्ने पशुपर्वलोकतटिने विशिषयर्यामुनै सम्मिश्रेव सशाङ्गदीप्तिलहरे नीलैर्महानिरधैः कामाक्षि स्फुरिता तव स्मितरुचि कालाञ्जनस्पर्धिना कालिम्ना कालिम्ना का सर... करोशिषाम् व्यदिकरे काञ्चित् दशामश्नुते जानीमो जगदीश्वरप्रणयिने त्वन्मन्दहासप्रभा श्रीकामाक्षि सरोजिनीमभिनव मेषायतः सर्वधा आस्येन्धोरवलोकने पशुपते रव्येति सम्पुलताम् त्वयि परिद्यक्रमम् यान्ति लोकिति मानमब्रतडिनी मा धातुश्चटा कर्दमये बान्दी बालगभस्तिमालिकिरणै मेघाबलीशारथी बिम्भोष्ट्युद्यधिपुञ्जशुम्भनकला शोणायमानेन ते कामाक्षि स्मितरोचिषा समधशा मारोडुमा काङ्क्षते श्रीकामाक्षि मुघेन्दुभूषणमिधम् मन्दस्मितम् तावकम् नेत्रानन्दकरम् तदा हिमकरो गच्छेत्यता तिग्मता शीतम् देवि तदा यदा हिमजलम् सन्तापमुद्रास्पदम् श्वेतम् किञ्ज तदा मलिनता दत्ते च मुक्तामणि त्वन्मन्दस्मितमञ्जरीम् प्रसृमराम् कामाक्षि सन्द्राधपम् सन्दः सन्दतमामनत्यमलता तल्लक्षणम् लक्ष्यते यन्नासौ विदुनोदितापमधिकम् नाभ्यन्तरम् मानस द्वान्तम् तत्कलु दुःखिनो वयममेकेनेति जानीमहे नम्रस्य प्रणयप्ररोहकलः छेदाय मन्दं चन्द्रकिशोरशेखरमणे कामाक्षिरागेण ते बन्धूकप्रसवश्रियम् जितवतो बंहीयसीं तादृशी बिम्पोष्टस्य रुचिम् ज्योत्स्नावयस्यायते परिमोचनम् विदधत तत्प्रीतिनिष्पादिनी भूयो दूरत एव धूतमश्रुत तत्पालनम् तन्वती उद्बोधस्य जलान्तराधविरतम् तत् दूरताम् जग्मुषे कामाक्षी स्मितमञ्जरी तव कथम् कम्भोतुलामच्नुते श्रीकामाक्षि तव स्मितद्युतिजरी वैदग्यलीलायितम् पश्यन्नोऽपि निरन्तरम् सुविमलम् मान्या जगन्मण्डले लोकम् हासयितुम् किमर्दमनिशम् मन्दाक्षम् विरहय्यवस्तु विभवो मन्दारचन्द्रादयाः क्षीराब्देरपि शैलराजतनये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 सूञ्चूनि कामाक्षिते नित्यम् यानि मृधुस्मितेन्दोमह स माश्वादमातन्वते चैत्यप्रक्रममाश्रितोऽपि न मताम् जाट्यप्रधाम् दूनयत् गिरिजे वैमल्यमुल्लासयन् लीलाभपुरःसरोऽपि सततम् वासंयमान् प्रीणयन् कामाक्षी स्मितरोषिताम् तव समुल्लासकथम् वर्ण्यते श्रोणीसञ्चलमे कलामुकरितम् लीलागतम् मन्धरम् ब्रोवल्लीचलनम् कटाक्षवलनं मन्दाक्षवीक्षाचनम् यद्वैद्यमुखेन मन्मधरिपुम् सम्मोहयन्त्यजसा श्रीकामाक्षि तव स्मिताय सततम् तस्मै नमस्कुर्महे श्रीकामाक्षि मनोज्ञमन्दहसित ेतश्वेतिमसार्वभौमशरणि प्राकल्प्यमभ्येयुषी चन्द्रोऽयम् युवराजताम् कलयते चेटीधुरम् चन्द्रिका सहचरे साधर्म्यमालम्पते ज्योत्स्ना किम् मौष्ण्यप्रशान्तिं विना त्वन्मन्दस्मितरोचिषा तनुमता कामाक्षिरोचिष्णुना सन्तापोऽपि निवार्यते नववश प्रासुर्यमङ्कूर्यते सौन्दर्यं परिपूर्यते जगति सा संचार्यते, च सञ्चार्यते वैमल्यं कुमुदश्रियां हि कान्त्वैव सन्तुश्यते ज्योत्स्नारोशिरभिप्रदोषसमयम् प्राप्यैव सम्पद्यते स्वच्छत्वम् नवमौक्तिकस्य परमम् संस्कारतो दृश्यते कामाक्ष्यास्मितदीधिते विशधिमा नैसर्गिको बासते प्राकाश्यम् परमेश्वरप्रणयिनी त्वन्मन्तः स्रिय श्रीकामाक्षिमभक्षिणो त्वमममत वैचक्षणीमक्षयाम् यद्बीद्येव निलीयते हि मकरो मेघादरेषु गर्भे मौतिकमण्डलीश्च सरसो मध्ये मृणाली च सा हेरम्बेशगुहेश हर्षभरितम् वात्सल्यमङ्कूरयत् मारद्रोहिणी पूरुषे सह भुवम् प्रेमाङ्कुरम् व्यञ्जयत् आनम्रेषु जनेषु पूर्णकरुणा वैदग्यमुत्तालयत् कामाक्षि स्मितमञ्जुषा तव संस्कृद्विजराजकोऽविरथं कुर्वन्द्विजयिसङ्गमं वाणी बद्धतिदूरकोऽपि सततं तं सागचर्यं वहन् अश्रांतं पशुतोर्लपोऽपि कलयन् पद्यौ पशूनां रथिं श्रीकामाक्षी तवस्मितां रुदरसन्तो श्री कामाक्षि महेश्वरे निरुपः प्रेमाङ्कुरप्रक्रमम् नित्यम् प्रकटीकरोति स गजा मुन्निद्रयन् माधुरी तत्तादृक्तभमन्दहासुषमा मातः कथम् मानिता तन्मूर्धा सुरनिम्नकांशकलिका निन्दोच्यताम् निन्दति ये माधुर्यविहारमण्टपभुवो ये चैत्यमुद्राकरा ये वैषद्यदशा विशेषसुभगा ते मन्दहासाङ्कुरा पर्यायत कुर्वता वाणी कुम्पनढम् परे सहृदये कीर्तिप्ररोहे शमे कामाक्ष्यामृदुलस्मितां शुनिकर दाक्षान्तके वीक्षणे मन्दाक्षग्रहिलाहि मद्योतिमयो काक्षेपदीक्षाङ्कुरा दाक्षम् पक्ष्मलयन्तुमाक्षिककुढ द्राक्षाभवम् स्वाक्षुमे मे सूक्ष्मम् मोक्षपथम् निरीक्षितुमपि प्रक्षालयेयुर्मनः जात्या शीतलशीतलानि मधुराण्येदानि भूतानि गङ्गानीव पयांसि देवि बडलान् यल्पस्मितज्योतिषाम् येन पङ्गपरम्परा मलिनिताम् एकाम्रनादप्रिये श्रीकामाक्षि परं मदीयदिषणाम् प्रक्षालयन्तु क्षणा अश्रान्तम् परदन्त्रित त्वन्मन्दहासाङ्कुरै श्रीकामाक्षि दधीयवर्णसमता सङ्गेन शङ्कामहे इन्दुं नागदुनीं च तेन वै वैकुण्ठैरवकुण्टनं च धूलीशयै बास्मनै श्रीकामाक्षि भव प्रिये मृदुवच सौरभ्यमुद्रास्पतम् प्रौढप्रेमलता मन्दं कन्दलति प्रियस्य वदना लोके समाभाष लक्ष्णे कुट्मलदि पुलके साश्लेक्षणे पुल्लती किम् त्रैस्रोतसमम्बिके परिणतम् श्रोदचतुर्थम् नभम् पीयूषस्य समस्ततापहरणम् किम् वा त्वदीयम् वपु किं स्विन्नैकटिकम् गिरो मधुरिमा व्यासाय गव्यम्बयपय कामाक्षि स्मरशासनप्रियतमे मन्दस्मितम् तावकम् भूषावक्त्रसरोरुहस्य सहजाम् वाशां शकी शाश्वती नेवि विभ्रमसन्तते पशुपते सौधीदृशाम् पारणाम् जीवादो मत्नश्रियशिरुषे रुच्चाटनी देवता श्रीकामाक्षि गिराम भूमिमयते हासप्रभामञ्जरी श्रूतिष्वेतिमगन्तलस्य वसति शृङ्गारशारश्रिय पूर्ति सूक्तिजरी रसस्य लहरे कारुण्यपातो निते पाटीकाशनकौसुमी मधुरिम स्वाराज्यलक्ष्म्यास्तव श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचादुरी जन्तूनाम् जनि दुःखमृत्युलहरी सन्तापनम् कृन्तत प्रौढानुग्रहपूर्णशीतलऋषे नित्योदयम् बिभ्रत श्रीकामाक्षि हा शङ्कुरास्ते हट आलोके न निख ्युरन्तमसय स्तोमस्य मे सन्तती उत्तुङ्गस्तनमण्डलस्य विलस लावण्यलीलानटी रङ्गस्य स्फुटमूर्त्वसी मणिमुहो प्राकाश्यमभ्येयुषी श्रीकामाक्षिस्तवस्मिद्युतिदधि चित्रा विद्रुममुद्रिताम् विदनुते मौक्तिं वितानश्रियम् स्वाभाव्यात्तवक्त्रमेव ललितम् सन्तोषसम्भातनम् शम्भो किम् पुन अञ्चितस्मितरुष पाण्डित्यपात्रीकृतम् अम्बोजंस्तव एव सर्वजगता सक्षुप्रियं भावुकं कामाक्षि स्फुरिते शरत् विकसिते भ्राजते पुम्भि निर्मलमानस विदधते रसं निर्मलम् कर्तुम् कर्मलयम् च निर्मलमताम् कीर्तिम् लबन्धेधराम् सूक्तिम् पश्मलयन्ति निर्मलगुणान् यत् तावख सेवक तत्कामाक्षितवस्मि तस्य कलया नैर्मल्यसीमानि दे आकर्षन् नयनानि नागिसदसान् इन्दुम् किञ्च विमोकयन् पशुपतिम् विश्वार्तिमुच्चाटयन् हिंसन् संसृतिढम् परम् तव शिवे हासाह्वयो मान्त्रिक श्रीकामाक्षिमधार्तितापतमसो विद्वेक्षणे चेष्टधाम् छे अस्माकमल्पस्मित ज्योतिर्मण्डलशङ्क्रमास्तव शिवे कामाक्षिरोक्षिष्णव कर्म व्यापारतापानल श्रीपाता नववर्षकर्षणसुधा श्रोधस्विनीशीकरा पूरे परिस्फूर्जति प्रौटाम् वारिधि चातुरीम् कलयते भक्तात्मनाम् प्रादिभम् दौर्गत्यप्रसरातमः पटलिका साधर्म्यमाभिप्रते किं किम् कैरवसाहचर्यपथवी प्रीत्याम् न दत्ते पदम् मन्दाराधिक्षुमन्मधारिमखिषी प्राकाश्यरीतिम् निजाम् काधाचित्कतया विशङ्क्य भगुषो वैशद्यमुद्रागुणा श्रीकामार्चितधीयसङ्घमकला मन्दी साधन्येन तवस्मि ते वितनुते स्वैरासनावासनाम् इन्दाने भववीति होत्र निवहे कर्मौकचण्डानिल प्रौढिं न बहुलीकृतनिपतितम् सन्तापचिन्ताकुलम् मा धर्मा परिषिञ्च किञ्चतमलै पीयूषवर्षैरिव श्रीकामाक्षितवस्मि तद्योतिगणै शैशिर्यलीलाकरै भाषाया शृङ्कारमुद्रासकी लीलाजातरते सुखेन नियम स्नानायमेनाद्मजे श्रीकामाक्षिसुधामयीव सशिराश रोतस्विनी तावकी गाटानन्दतरङ्गिता विजयते हासप्रपाचातुरी संतापं विरलीकरोतु सकलम् कामाक्षिमच्चेतना मज्जन्ती मधुरस्मिता मरधुनी कल्लोलजाले शुधे नैरन्तर्यमुपेद्यमन्मतमरुल्लोल ुयेषु स्फुटम् प्रेमेन्दुप्रतिबिम्बितो वितनुते कौतूहलम् दुर्झटे चेत क्षीरपयोदि बन्धनचलद् गाख्यमन्दाचल शोभव्यापृतिसम्भवाम् जननि ते मन्दस्मितश्रीसुधाम् स्वाधम् स्वाधमुदीतकौतुकरसं नेत्रत्रयी शङ्करी श्रीकामाक्षि निरन्तरम् परिणमत्यानन्दवीषीमयी उद्दामकौतूहल प्रेङ्कन्मारुतकट्टनप्रचलिता दुनानन्ददुक्ताम्बुधे काचित् वीचिरुतञ्चति प्रदिनवा संवित्प्ररोहात्मिका तां कामाक्षि कवीश्वरास्मितमिते व्याकुर्वते मन्दस्मिधा तेमुः मातुर्याघमसम्प्रदायमधवा सूक्तेस्तु मन्दस्मितम् इत्थं कामविगाहते मम मन सन्देहमार्गभ्रमीम् श्रीकामाक्षिणपारमार्द्यशरणे स्फूर्तौ निधत्ते पदम् क्रीटालोलकृपासरोरुकमुखी सौधाङ्गणेभ्यः कवी श्रेणीवाक्परिपाटिकामृतजरे श्रुतिगृहेभ्यः शिवे निर्वाणाङ्कुरसार्वभौमपदवी सिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञमन्धहसित ज्योतिष्गणेभ्यो नमः आर्यामेव विपावयन्मनसि पाधारविन्दम् पर पश्यन्नारभते स्तुतिं सनियतम् लब्वा कटाक्षश्च विम् कामाक्षामृतुलस्मितांशुलहरी ज्योत्स्नावयस्यान्विता आरोह्य यभवर्गसौथवलभीम् आनन्दवीषी महीम् इमां पञ्चशतीं यस्तु नित्यं भक्तिरुत्पठेत् श्रीकामाक्षि भवेत् तस्य प्रसन्ता सवरप्रथा श्रीकाञ्चीनगरी कामकोटिपीठादिभप्रभो जीया श्री शैष सरस्वती। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्रयम्बके गौरी नारायणि नमोऽस्तु